दुर्गासूक्तम् जातवेदसे जातवेदसे जातवेदसे सुनवाम सुनवाम सुनवाम सोम मराति यतः सोम मरातीयतः सोम सुनवाम सोम मरातीयतः सुनवाम सोम मरातीयतः सुनवामसोम मरातीयतः जातवेदसे सुनवामसोम मरातीयतः जातवेदसे सुनवामसोम मरातीयतः जातवेदसे सुनवामसोम मरातीयतः निदहाति वेदः निदहाति वेदः निदहाति वे जात वेदः जातवेदसे सुनवामसोम मराति यतो निदहाति वे जात वेदः जातवेदसे सुन्वाम सोम मराति यतो निदहातिवेदः जातवेदसे सुन्वाम सोम मराति यतो निदहातिवेदः च न स नः पर्षदति विश्वा दुर्गाणि विश्वा दुर्गाणि विश्वा स नः विश्वा स नः विश्वा स नः विश्वा नावेव सिन्धुम् दुरितात्यग्निः दुरितात्यग्निः दुरिताद्यग्निः नावेभसिन्धुं दुरितात्यग्निः नावेभसिन्धुं नावेव सिन्धुम् दुरिताद्यग्निः स पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरिताद्यग्निः स दुर्गाणि विश्वा नावेव सिन्धुम् दुरिताद्यग्निः स दुर्गाणि विश्वा नावेव सिन्धुम् दुरिताद्यग्निः ताभग्निवर्णां ताभग्निवर्णां ताभग्निवर्णां तपसा ज्वलन्तीं तपसा ज्वलन्तीं तपसा ज्वलन्तीं ताभग्निवर्णां मग्निवर्णाम् अपसाज्वलन्तीं वैरोचनीं वैरोचनीं वैरोचनीं कर्मफलेषु कर्मफलेषु कर्मफलेषु वैरोचनीं कर्मफलेषु वैरोचनीं कर्मफलेषु वैरोचनीम् कर्मफलेषु जुष्टाम् जुष्टा जुष्टाम् जुष्टाम, वैरोचनीम् कर्मफलेषु जुष्टाम् वैरोचनीम् कर्मफलेषु जुष्टा वैरोचनीम् कर्मफलेषु जुष्टा ता भग्निवर्णाम् तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां तामग्निवर्णां तपसा ज्वलन्ति वैरोचनि कर्मफलेषु जुष्टाम् दुर्गाम् देवीम् दुर्गाम् देवीम् दुर्गाम् देवीम् शरणमहम् प्रपद्ये शरणमहम् प्रपद्ये शरणमहम् प्रपद्ये दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसितरसे नमः सुतरसितरसे नमः सुतरसि नमः दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसि तरसे नमः दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसि नमः दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसि नमः अग्ने त्वम् अग्ने त्वम् अग्ने त्वम् पारयानव्यो पारयानव्यो पारयानव्यो पारजानव्यो अग्ने पारयानव्यो अग्ने पारयानव्यो अस्मान् स्वस्तिभिः अस्मान् स्वस्तिभिः अस्मान् स्वस्तिभिः स्वस्तिभिरति स्वस्तिभिरति स्वस्तिभिरति अस्मान् स्वस्तिभिरति अस्मान् स्वस्तिभिरति अस्मान् स्वस्तिभिरति अग्ने त्वं पारय नव्यो अस्मान् स्वस्तिभिरति अग्ने त्वं पारय नव्यो अस्मान् स्वस्तिभिरति अग्ने त्वम् पारय नव्यो अस्मान् स्वस्ति बिरति दुर्गाणि विश्वा दुर्गाणि विश्वा दुर्गाणि विश्वा अग्ने त्वम् पारय नव्यो स्वस्ति बिरति दुर्गाणि विश्वा अग्नेत्वं त्वम् पारयनव्यो अस्मान् स्वस्ति बिरति दुर्गाणि विश्वा अग्ने त्वम् पारयानव्यो अस्मान् स्वस्ति बिरति दुर्गाणि विश्वाश्च पृथ्वी पोश्च पृथ्वी पोश्च पृथ्वी बहुलान उर्वी बहुलान उर्वी बहुलान् उर्मि पोश्च पृथ्वी बहुलान उर्वी पोश्च पृथ्वी बहुलान ऊर्मि पोश्च पृथ्वी बहुलान उ भवातोकाय भवातोकाय भवातोकाय तनयाय तनयाय तनयाय संयोः संयोः संयोः तनयायशयोः तनयायशयोः तनयायशयोः भवातोकाय तनयायशयोः भवातोकाय तनयायशयोः भवातोकाय तनयायशयोः पूच्छ पृथ्वे बहुला न यसंयोः ओश्च पृथ्वी बहुलान भूर्वी भवतोकायतनयायसंयोः विश्वानिनो दुर्गः जातवेदस् सिन्धुम् जातवेदः जातवे जातवे विश्वानिनो दुर्गः जातवेदस्सिन्धुम् विश्वानिनो दुर्गः जातवेदः विश्वानिनो दुर्गः जातवेदः ननावा वा नना वा दुरिताति पर्षी दुरिताति पर्षी दुरिताति पर्षी नाना वा दुरिताति पर्षी नाना न न वा दुरितातिपर्षि विश्वानिनो दुर्गः जातवेदस्सिन्धुं न न वा विश्वानिनो दुर्गः जातवेदस्युम् नाव दुरितातिपर्शि अग्ने अत्रिवन् अग्ने अत्रिवन् अग्ने अत्रिवन् मनसा मनसा मनसा गृणानोऽस्माकम् गृणानोऽस्माकम् गृणानोऽस्माकम् मनसा गृणानोऽस्माकम् मनसाघृणानोऽस्माकम् मनसाघृणानोऽस्माकम् अग्ने अद्रिवन् मनसा गृणानोऽस्माकम् अग्ने अत्रिवन् मनसा गृणानोऽस्माकम् अग्ने अत्रिवन् मनसा गृणानोऽस्माकम् बोध्यविता तनूनाम् भोज्यभितनूना भोज्यवितनूनाम् अग्ने अत्रिवन् मनसा गृह्णानोऽस्माकम् बोध्यविता तनूनाम् अग्ने अत्रिवन् मनसा गृह्णानोऽस्माकं बोध्यविता तनूनाम् अग्नि अत्रिवन्मनसाग्रि नानोऽस्माकम् भोज्य वितनूना पृतनाजितगुं सहमानम् पृतनाजितगुं सहमानं। पृतनाजितगुं सहमानम् उग्रमग्निम् उग्रमग्निम् मुग्रमग्निँ सहमानमुग्रमग्निम् सहमानमुग्रमग्निम् सहमानमुग्रमग्निम् पृतनाजितगुँ सहमानमुग्रमग्निम् पृथनाजितगुँ सहमानमुग्रमग्निम् प्रथमाजितगुं सहमानमुग्रमग्निम् अग्निगुं हुवेम अग्निगुं हुवेम अग्निगुं हुवेम हुवेम परमात् हुवेम परमात् हुवेम परमात् सदस्तात् सदस्तात् सदस्तात् हुवेम परमात् सदस्तात् हुवेम परमात् सदस्तात् हुवेम परमात् सदस्तात् सहमानमुग्रमग्निगं हुवेम परमात् सदस्तात् सहमानमुग्रमग्निगुं हुवेम परमात् सदस्तात् सहमानमुग्रमग्निगुं हुवेम परमात् सदस्तात् सदस्तात् पृतनाजितगुं सहमान पुवेमपरमात् सदस्तात् पृतनाजितगुं सहमानमुग्रमग्निगुं पुवेमपरमात् सदस्तात् स नः पर्षदति स नः पर्षदति स दुर्गाणि विश्वा दुर्गाणि विश्व दुर्गाणि विश्व क्षामद्देवो क्षामद्देवो क्षामद्देवो दुर्गाणि विश्व क्षामद्देवो दुर्गाणि विश्व क्षामद्देवो दुर्गाणि विश्व दुर्गाणि विश्व क्षाम देवो स नः पर्षदति दुर्गाणि विश्व देवो सनः पर्षदति दुर्गाणि विश्व क्षामद् देवो अतिदुरिताद्यग्निः अतिदुरिताद्यग्निः अतिदुरिताग्निः स नः पर्षदति दुर्गाणि विश्व क्षामग् तिदुरिताद्यग्निः सनः पर्षदति दुर्गाणि विश्व क्षामद्देवो अतिदुरिताद्यग्निः सनः पर्षदति दुर्गाणि विश्व क्षामद्देवो अतिदुरिताद्यग्निः रत्नोषि गमीज्यो रत्नोषि गमीजो रनोषि कमीज्यो अध्वरेषु अध्वरेषु अध्वरेषु रत्नोषि कमीज्यो अध्वरेषु रत्नोषि कमीज्यो अध्वरेषु रत्नोषि कमीज्यो अध्वरेषु सनाच नव्यश्च सस्य सनाच्च होता नव्यश्च सत्सि सनाचहो नव्यश्च सस्य सनाच्च नव्यश्च सस्य रत्नोषि कमीढ्यो अध्वरेषु नव्यश्च सत्सि रत्नोषि कमेज्यो अध्वरेषु नव्यश्च सस्य प्रत्नोषि कविर्यो अध्वरेषु सनाच्च होत नव्यश्चि स्वाञ्चाग्ने स्वाञ्चाग्ने स्वाञ्चाग्ने तनुवम् तनुवम् तनुवम् स्वाम् आग्ने तनुवम् स्वाञ्चग्ने तनुवम् स्वाञ्चाग्ने तनुवम् विप्रयस्व पिप्रयस्व पिप्रयस्व अस्मभ्यं च अस्मभ्यं च अस्मभ्यं च पिप्रयस्वास्मभ्यं च पिप्रयस्वास्मभ्यं च पिप्रयस्वास्मभ्यं च सौभगमायजस्व सौभगमायजस्व सौभगमायजस्व पिप्रयस्वास्मभ्यं च सौभगमायजस्व पिप्रयस्वास्मभ्यं च सौभगमायजस्व पिप्रयस्वास्मभ्यं च सौभगमायजस्व स्वां च स्वा आग्ने तनुवं पिप्रयस्वास्मव्यं च सौभगमायजस्व स्वाञ्च आग्ने तनुवं पिप्रयस्वास्मव्यं च सौभगमायजस्व गोभिर्जुष्टं अयुज्योनिषिक्तं गोभिर्जुष्टमयुजोनिषिक्तम् गोभिर्जुष्टमयुजोनिषिक्तम् गोभिर्जुष्टमयुज्योनिषिक्तम् तवे इन्द्रविष्णोः तवे इन्द्रविष्णोः तवे इन्द्रविष्णोः विष्णो ऋनु संचरेम तवे इन्द्र विष्णोरनु संचरेम तवे इन्द्र विष्णो ऋनु संचरेम तवे इन्द्र विष्णोरनु संचरेम गोभिर्जुष्ट मयुजो निषिग्धम् तवे इन्द्र विष्णोरनु संचरेम गोभिर्जुष्ट मयुजो तवे इन्द्र विष्णु वृणु संचरेम गोभिर्जुष्टमयुजोनिषिक्तम् तवे इन्द्र विष्णु नाकस्य पृष्ठम् नाकस्य पृष्ठम् नाकस्य पृष्ठम् पृष्ठमभि सम्बसानः पृष्ठमलिशम्वसानः नाकश्च पृष्ठमभि नाकस्य पृष्ठमलिसम्वसानः नाकस्य पृष्ठमलिसम्वसानः वैष्णवीं वैष्णवीं वैष्णवीं नाकस्य पृष्ठमभि वैष्णवीं नाकस्य पृष्ठमभिसम्बानो वैष्णवीं नाकस्य पृष्ठमभिसम्बानो वैष्णवीं लोक इह लोक इगमाजयन्तां लोक इह माधयन्तां नाकस्य पृष्ठमभिसम्बसानो वैष्णवीं लोक इगमादयन्ताम् नाकस्य पृष्टमभि संवसानो वैष्णवीं लोकयुगमादयन्ताम् नाकस्य पृष्टमभि संवसानो वैष्णवीं लोकयुगमादयन्ताम् आज्यायनाय विद्महे अध्यायनाय विद्महे कात्यायनाय विद्महे कन्याकुमारी धीमहि कन्याकुमारी धीमहि कन्याकुमारी धीमहि कात्यायनाय विद्महे कन्याकुमारि धीमहि कात्यायनाय विद्महे कन्याकुमारी धीमहि कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् तन्नो प्रचोदयात् तन्नो प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारी धीमहि तन्नो दुर्गिः प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गि